सद्यो निष्पिष्टसन्धिम् भुवि नरपतिमापात्य तस्योपदिष्टात् त्वय्यापात्येतदैव त्वदुपरि पतिता नाकिनाम् पुष्पवृष्टिः किम् किम् ब्रूमस्तदानीम् सततमपि भिया त्वद्गतात्मा स भेजे सायुज्यम् त्वदोक्ता परमपरमीयम् वासनाकालने